खड्गपात्रशिरःखेतैरलङ्कृतचतुर्भुजा कबन्धहारम् शिरसा बिभ्राणा शिरसा शिरःस्रजम् शिरस्वजं। साप्रोवाच महालक्ष्मीम् तामसी प्रमदोत्तमा नामकर्म च मे मातर्देहितुभ्यम् नमो नमः ताम् प्रोवाच महालक्ष्मीस्तामसीम् प्रमदोत्तमाम् ददामि तव नामानि यानि कर्माणि तानि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 अक्षमलाकुशधरा वीणापुस्तकधारिणी सा नारी ना चा दद महाद्या महावाणी भारतीवाक्सरस्वती आरिया ब्राकाधेुेदर्भाजधरी अथोवाच महालक्ष्मी महाकाल सरस्वती युवां जनयता दौ मिथुने इत्युक्त्वा महालक्ष्मी महालक्ष्मीः स्वयं। स्वयम् हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ब्राह्मण्विधेऽभिरिञ्चेति धातरित्याह तम् नरम् श्रीःपद्मे कमले लक्ष्मीत्याह माता च ताम् स्त्रियम् महाकालीभारती एतयोरपि रूपाणि नामानि च वदामि